हरि ओम् श्री सीतारामचन्द्राभ्याम् नमः अथ श्रीमध्यात्मरामायणे युद्धकाण्डे दशम स्वर्गः श्रीमहादेव उवाच स्वविचार्य सभा मध्ये राक्षसैः सह मन्त्रिभिः निर्ययो एव शिष्टास्ति राक्षसै सह राघवम् शरभय शरभैर्युक्त प्रज्वलन्तम् तो रामेण न्यता सर्वे ते राक्षसायुधि स्वयम् रामेण नियत तीक्ष्णबाणेन वक्षसि व्यथित त्वरितम् लङ्काम् प्रविवेश दशाननः दृष्ट्वा रामस्य बहुश चाप्य चाप्यमानुषम् रावणो मारुते चैव शीघ्रम् शुक्रान्तिकम् ययौ नमस्कृत्य दशग्रीव शुक्रम् प्राञ्जलिरब्रवीत् भगवन् राघवेणैवम् लङ्का राक्षसयूथपै विनाशिता महादैत्या नेता पुत्रबान्धवः कथं मे दुःखसन्दोह त्वयि तिष्ठति सद्गुरौ इति विज्ञापितोद्य गुरुप्रहृदशाननम् सहसि त्वम् दशानन यदि विघ्नो न चेदोमे तर्हि होमान् लोचित महान्रथ च वापतूणी रसायकः सम्भविष्यन्ति तैर्युक्ते त्वम् त्वम् मधेयो भविष्यसि गुला मन्त्रान् मद्दत्तान् होमं होमम् कुरु ध्रुतम् गत्वा रावणो राक्षसाधिवहे गुहां पातालसदृशीं मन्दिरे स्वे चकार हे रङ्गाद्वारकपाठादि बद्ध्वा सर्वत्र यत्नतः हो मन् द्रव्याणि सम्पाद्य यान्युक्तान्याभिचारिके गुहां प्रविश्य चैकान्ते मौनि होमं पचक्रमे उत्थितं धूममालोक्य महान्तं रावणानुजहे रामाय मासे, होमधूमम् भयाकुलः पश्य रामदशग्रीवो होमम् कर्तुम् समारभत यदि होम समाप्तः स्यात् तदा ध्येयो भविष्यति अतो विघ्नाय होमस्य प्रेषयासु हरीश्वरान् तथेति राम सुग्रीव सम्मते दं कपिम् अनुभयत् प्रमुखान् वीरान् आदिदेश महाबलान् प्राकारम् लङ्घयित्वा ते गत्वा रावणमन्दिरम् दशकोट्यः प्लवङ्गानाम् गत्वा मन्दिररक्षकान् चूर्णयामासुरश्वांश गयांश निहनन् क्षणात् ततश्च शर्मा नाम प्रभाते हस्तसञ्ज्ञया विभीषणस्य भार्या स ोमस्थानम् असूचयत् गुहापिधानपाषाणम् अङ्गदपादगच्छनै चूर्णयित्वा मासत्व प्रविवेश महागवान् दृग्वादशाननम् तत्र मेलिताक्षम् दृढासनम् ततोऽङ्गदात्मया सर्वे वानरविशुर्धृतम् तत्र गोलाहलम् चक्रु ताडयन्तश्च सेवकान् संवारणशिक्षिपुस्तस्य त्वम कुण्डे समन्ततः माच्छिद्यस्ताच्च रावणस्य बलादृशा तेनैव समाशु हनुमान् प्लवगाग्रणी ग्रन्थी दन्तै च काष्ठे च वानर समितस्ततः न जहो रावणो ध्यानम् अतोऽपि विजिगीषया शान्तः पुरे वेश्मन् यङ्गदो वेगवत्तरः समानय केशबन्धे धृत्वा मन्दोदरीम् शुभाम् रावणस्यैव पुरतो विलपन्तीम् अनाथवत् विदताराङ्गुकम् रत्नभूषितम् मुक्ता विमुक्ता पतिता समन्ताद्रत्न श्रोणीसूत्रम् निपतितम् त्रुटितम् रत्नचित्रितम् कटिप्रदेशात् विस्तृता नीवीतस्यैव पश्यतः भूषणानि च सर्वाणि पतितानि च मन्ततः देवगन्धर्वकन्या च नीता रुष्टे प्लवङ्गमये मन्दोदरी रुरोदात् रावणस्य दीना जगादय दशकन्धरम् निर्लज्जोऽसि परेम् केशभाषे विकृशते भार्या तवैव पुरतः किं जुहोषि न लज्जसे हन्यते पश्यतो यस्य भार्या पापै चत्रुभि वक्तव्यम् तेन तत्रैव देवितान्मरणम् वरम् ह मेघनादते माता क्लिश्यते बतवानरे त्वयि जीवति मे दुःखम् ईदृशम् च कथम् भवेत् बाल्या लज्जा च सन्त्यक्ता भस्त्रा मे दीविताशयः श्रुत्वा तद्देवि तम् राजा मन्दोदर्या दशाननः है पुत्र खड्गमादाय त्यज देवीम् इति ब्रुवन् जघानाङ्गतमव्यग्रे कटिदेशे दशाननः हे सर्वे विध्वंस्य हवनम् महत् सर्वे प्रहर्षिताः रावणस्तु ततो भार्याम् उवाच परितान्तयन् दैवाधीनम् इदम् भद्रे जीविता किम् न दृश्यते यज शोकम् विशालाक्षि ज्ञानम् आलम्ब्य निश्चितम् अन्या शोके शोको ज्ञानविनाशकरोत् भवा नंदी शरीर आत्मसु तमूल पुत्रादी संबंध संस्कृति स्थय क्रोध लोभ मोह सुदय अज्ञान प्रभवा हेते जन्म मृत्यु है आत्मा तो कवलम शुद्धो व्यतिरिक्त झलेपक आनंदो ज्ञान सर्वविवर्जितः न संयोगो वियोगो वा विद्यते केनचित्ततः एव स्वमात्मानम् च शोकम् अनिन्दिते इदानीमेव गच्छामि हत्वा रामम् सलक्ष्मणम् आगमिष्यामि नो चेन्माम् श्रीरामो व्रज वज्रकल्पय ततो गच्छामि तत्पदम् तदा त्वया मे कर्तव्यो क्रिया मच्छासनाप्रिये सीता महत्वा मया सार्धम् त्वम् प्रवेक्ष्यसि पावकम् एवम् श्रुत्वा वचस्तस्य रावणस्याति दुःखिता उवाचनाथमे वाक्यम् शृणु सत्यम् तथा कुरु शक्यो न राघवो जेतुम् त्वया चान्यैकदाचन रामो देव साक्षात् प्रधान पुरुषेश्वर मत्स्य भूत्वा पुरा कल्पे मनु वैव सतं प्रभो रलक्ष सकला पद्भ्यो राघवो भक्तवत्सलै रामे कुर्मो भवत् लक्ष्ययोजन विस्तृतः समुद्र मतने पृष्ठे र कनकाचलम् हिरण्याक्षोतिदुर्वृत्तौ अतो नेन महात्मना द्रोढरूपेण वपुषा कोणीमुद्धरता क्वचित् शिलोककण्टकम् दैत्यम् हिरण्यकशिपुं पुरा अथवा नारसिंहेन वपुषा रघुनन्दनः विक्रमै स्त्रीभिरेवासो बलिम् बद्ध्वा जगत्त्रयम् ृत्याय रघुसत राक्षसा क्षत्रियाता हमु चोरामो भुवं जीवान्मुनेतु रघुवंशी परापर भे रघुश्रेष्ठ मानुष तम पागत किम व ृतासीताव न बलात् मम पुत्र विनाशार्थम् स्वस्यापि निधनाय च इतः परं वा वैदेहिम् प्रेषयस्व रघु तु दत्वा गच्छाम एव नोदरीव च श्रुत्वा कथं भद्रे भ्रातृन् राक्षसमण्डलम् गात्वयित्वा राघवेण जीवामि वनगोचर रामेण सह योजयामि रामबाणे सुशीघ्रगैः विरमाणो यास्यामि तद्विष्णो परमम् पदम् जानामि राघवम् विष्णुम् लक्ष्मीम् जानामि जानकीम् ज्ञात्वैव जानकी सीता मया नीता वनात् बलात् रामेण निधनम् प्राप्य यास्यामीति परम् पदम् विमोच्य तां तु संसारात् गमिष्यामि स प्रिये परानन्द मयि शुद्धा सेव्यते या मोक्षुभि ताम् गतिम् तु गमिष्यामि अतो रामेण संयुगे प्रक्षाल्यकल्मषाणैः मुक्तिम् यास्यामि दुर्लभाम् वेषादि पञ्चकतरङ्गयुतम् ब्रह्माढ्यम् दारात्मजात्तधनबन्धु चाभिुक्तम् अर्वानलाभ निजरोचमनङ्गजालम् संसारसागरमतीत्य हरिं व्रजामि इति श्रीमदध्यात्मरामायणे मामैश्ववादे युद्धकाण्डे दशमः सर्गे श्रीसीतारामचन्द्रार्पणमस्तु